लङ्कामभिमुखो राजन् समुद्रमवलोकयत् कूर्मग्राहझषाकीर्णं न प्रैर्मीणैस्तथाकुलम् शुक्तिव्रातैः समाकीर्णं शङ्खानाम्नि च याकुलम् स दृष्ट्वा रामसेतुं चिन्तयन् रामविक्रमम् प्रणम्यतमतिक्रम्यायाम्यां वेलामलोकयत् गत्वा पारं समुद्रस्य दक्षिणं स ददर्श लङ्काम् राजेन्द्र नाक पृष्ठोपमां शुभाम् प्राकारेणावृताम् रम्याम् शुभद्वारैश्च शोभिताम् प्रासादैर्बहुसाहस्रैः श्वेतरत्तैश्च सङ्कुलाम् तापनीयगवाक्षेण मुक्ताजालान्तरेण च हर्म्यगोपुरसम्बाधां रुक्मतोरणसङ्कुलां दिव्यदुन्दुभिनिर्नादामुद्यानवनशोभिताम् पुष्पगन्धैश्च संकीर्णां रमणीय महापथा नानारत्नैश्च सम्पूर्णामिन्द्रस्येवामरावतीं विवेशसपुरीं लङ्कां राक्षसैश्च निषेवितां ददर्श राक्षसव्राताच्छूलपाशधरान् नानावेषधरान् दक्षान् नारीश्च प्रियदर्शनाः दिव्यमाल्याम्बरधरा दिव्याभरणभूषिताः मदरक्तान्तनयनाः पीनश्रोणिपयोधराः भैमसेनिं ततो दृष्ट्वा हृष्टास्ते विस्मयं गताः सदनोपमम् सद्वारपालमासाद्य वाक्यमेतदुवाचः घटोत्कच उवाच कुरूणां वृषभो राजा पाण्डुर्नाम महाबलः कनीयांस्तस्य दायादः दा सह देव इति श्रुतः कृष्णमित्रस्य तु गुरो राजसूयार्थमुद्यतः तेनाहं प्रेषितो दूतः करार्थं कौरवस्य च द्रष्टुमिच्छामि बौलस्त्यम् त्वम् क्षिप्रं मां निवेदय वैशम्पाय तस्य तद्वचनम् श्रुत्वा द्वारपालो महीपते तथेत्युक्त्वा विवेशाथा भवनं स साञ्जलिः समाचश्च सर्वाम् दूतगिरम् तदा द्वारपालवच श्रुत्वा राक्षसेन्द्रो विभीषणः उवाच वाक्यम् धर्मात्मा समीपे मे प्रवेश्यताम् एवमुक्तस्तु राजेन्द्र धर्मज्ञेन महात्मना अथ निष्क्रम्य सम्भ्रान्तो द्वाःस्थो हैडिम्बमब्रवीत् एहि दूतनृपम् द्रष्टुं क्षिप्रे प्रविश च स्वयम् द्वारपालवचः श्रुत्वा प्रविवेशघटोत्कचः स प्रविश्य ददर्शाथा राक्षसेन्द्रस्य मन्दिरम् ततः तप्तकाञ्चनतोरणं प्राकारेण परिक्षिप्तं गोपुरैश्चापि शोभितं हर्म्यप्रासादसंवाधं काञ्चनैस्तापनीयैश्च स्फाटिकैराजतैरपि वज्रवैडूर्यगर्भैश्च स्तम्भैर्दृष्टिमनोहरैः नानाध्वजपताकाभिः सुवर्णाभिश्च चित्रितम् चित्रमाल्याव्रतं रम्यं तप्त काञ्चन वेदिकं दृष्ट्वा तत्र सर्वान् सा प्रविशन्नेव हैडिम्बः शुश्रावमुरजस्वनम्